हिरण्यवर्णाम्भरिणीम् सुवर्णरजदस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीञ्जातवेदो म आवह ताम् म आवह जातवेदो लक्ष्मीमनपगाविनी यस्याम् हिरण्यम् विन्दे जङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिना आदप्रबोधिनी श्रियम् देवीमुपह्वगे श्रीम्मा आ देवी जुषताम् स्मिताम् हिरण्यप्राकाराभार्द्राञ्ज्वलन्तीम् तृप्ताम् तर्पयन्ती पद्मे स्थिताम् पद्मवर्णान्तामिहोपह्वजे श्रियम् चन्द्राम् प्रभासाम् यशसाज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीम् शरणमहम् प्रपद्ये लक्ष्मीर्बे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फला आदितपसानुदन्तुमाजान्तराजाश्च वाक्या ह लक्ष्मीः उपैतु मान्दे एव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशजाम्यहम् च सर्वान् निर्णुद मे गन्धद्वारान् दुराधर्षान् नित्यपुष्टाङ्करीषिणी ईश्वरीम् सर्वभूतानाम् तामिहो पक्वजे श्रियम् मनसः काममागोभूतिम् वाचः पशूनाम् रूपमन्नस्य मयि श्रीश्रयथायशः कर्दमेन प्रजाभूता मयि कर्दमा श्रियम् वासज कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्ली गृहे निच देवीम् मातरम् श्रियम् वासज मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्वगीम् लक्ष्मीञ्जातभेदो महावहा आर्द्रा यष्करिणी यष्टिम् ूर्याम् हिरण्मही लक्ष्मीञ्जातवेदो जातवेदो आवह ताम् म जातवेदो लक्ष्मी लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतं गावो दास्योश्वादेर् विन्देजम् पुरुषानहम् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयाते सक्तुमिवति तमुना पुनन्थो यत्र धीरामनसा वाचमक्रता सखारः सख्यानि जानते भद्रैजाल्लक्ष्मीर्निहिताधिवाची ओम् शान्तिः शान्तिः